हरि ओम् श्रीसीतारामचन्द्राभ्यां नमः अथ अध्यात्म रामायणे अध्यात्म रामायण रामं विश्वमयं वन्दे रामं वन्दे रघुद्वहम् रामं विप्रवरम् वन्दे रामं श्यामाग्रजं भजे यस्य वांशदश्चुस्तूच रम्यं रामायणामृतम् शैलजा सेवितं वन्दे तं शिवं सोमरूपिणम् तच्चिदानन्द सन्दोहम् भक्तिभूतिविभूषणम् पूर्णानन्दमहं वन्दे सद्गुरुं शङ्करं स्वयम् अज्ञानध्वान्त संभर्त्री ज्ञानालोकविलासिनी चन्द्रचूडवच्चन्द्र चन्द्रिकेयं विराजते जयति रघुवंशतिलक कौसल्यानन्दिवर्धनो रामः दशवदना निधनकारी दाशरथि पुण्डली कक्षे अप्रमेय त्रयातीत निर्मल ज्ञानमूर्तये मनोगिराम् विदुराय दक्षिणामूर्तये नमः सूतवाच कश्चित् नारायणो योगी पर नुहवाया पर्यटन सकलाक बागम त्र दृष्टि मूर्तिम्भि परिवर्ति बालार्क प्रभया सम्य भाषय तम सभागृह मारकेंडेदी मुनि स्तूयमुहुमु सर्वाश्रगोचरज्ञानम् सरस्वत्या समन्वितम् चतुर्मुखम् जगन्नाथम् भक्ताभीष्टफलप्रदम् प्रणम्य दण्डवद्भक्त्या तुष्टावमुनिपुङ्गवः सन्तुष्टस्तम् मुनिम् प्राह स्वयम्भूवैष्णवोत्तमम् किम् द्रष्टुकाम त्वमसि सर्वदिशामि ते मुने इत्याकर्ण्यवचस्तस्य मुनिर्ब्रह्माणमब्रवीत् तत्तश्रुतम् मया सर्वम् पूर्वमेव शुभाशुभम् इदानीमेकमेवास्ति श्रोतव्यम् सुरसप्तम् तद्रहस्यमपि ब्रूवे यदि ते नु ग्रहो मयि प्राप्ते कलियुगे घोरे नरा पुण्यविवर्जितः दुराचार सर्वे सत्यवाता परा मुखापवाद निरता पर द्रव्याभिलाषिण परी सनस है, देहात्म दृष्टो मूढ़ा नास्ति का पशु बुद्ध ये बाता पितृकृत देश है श्रीदेवा कामकिङ्गरः विप्रालो भग्रग्रस्तात् वेद विक्रयजीविनः धनार्जनासम् अभ्यस्त विद्यामान विमोहितः त्यक्ते स्वजातिकर्माण पायश परवञ्चकः क्षत्रियाश्चि तथा वैश्या स्वधर्म ्रह्मणाचार तत्परः स्त्रियश्च प्रायशो भ्रष्टा भर्तवज्ञाननिर्भयः श्वशूर द्रोहकारिण्यो भविष्यन्ति न संशयः एतेषाम् नष्ट परलोक कथम् भवेत् इति चिन्ता कुलम् चित्तम् रायते मम सन्ततम् लघुपायेन परलोकगतिर्भवेत् तम् उपायमुपाख्याहि सर्वं वेत्तीयतो भवान् वितीर्षेर्वाक्यमाकर्ण्य पक्त्युवाचाम्बुजासनः साधु पृष्टम् त्रया साधु वक्षेतच्छृणुसादनम् पुरात्रिपुरहन्तारम् पार्वती भक्तवत्सल श्रीरामतत्त्वम् जिज्ञासु पप्रच्छ विनयान्विता प्रिया यै गिरिशस्तस्यै गूढम् व्याख्यातवान् स्वयम् पुराणोत्तममध्यात्म रामायणमिति स्मृतम् तत्पार्वती जगद्धात्री पूजयित्वा दिवानिशम् आलोचयन्ति स्वानन्द भग्ना तिष्ठति साम्प्रतम् प्रचलिष्यति तद् प्राण्यदृष्टेव यदा तस्याध्ययनमात्रेण जना यास्यन्ति सद्गतिम् तावद् विजृम्भते पापम् ब्रह्महत्या पुरस्सरम् यावत् जगति नाध्यात्म रामायणम् उद्दिश्यति तावत् कली महोत्साहो निःशङ्कम् सम्प्रवर्तते रामायणम् उदेष्यति तावत् नियमभटा शूरा सञ्चरिष्यन्ति निर्भया यावत् जगति नाध्यात्म रामायणम् उदेषति तावत् सर्वाणि शास्त्राणि विवदन्ते रामस्य दुर्बोधं महतामपि यावत् जगति रामायणम् उद्दिशति अध्यात्मरामायण सन् गीतनश्रवणादिजम् फलम् कास्ने न मुनिसत्तम तथापि तस्य माहात्म्यम् वक्ष्ये किञ्चित् तव नघ शृणु समाधाय शिवेनोक्तम् पुरा मम अध्यात्मरामायणतः श्लोकम् श्लोकार्धमेव वा यः पठेद्भक्ति संयोक्तः सपापान्मुच्यते क्षणात् यस्यो प्रत्यहमध्यात्म रामायणम् अनन्यधि यथाशक्ती वदेद्भक्त्या स जीवन्मुक्त उच्यते यो भक्त्या चेतेऽध्यात्म रामायणम् चन्द्रितः दिने दिनेष्व मेधस्य फलं तस्य भवेन् मुने यदृक्षापि अध्यात्म रामायणमनादरात् अन्यथा शृणयान्मर्त्य सोऽपि मुच्येत पातकात् नमस्करोति ध्यात्म रामायणम् अधूरतः सर्वदेवार्चन फलम् प्रप्नोति न संशयः लिखित्वा पुस्तकेऽध्यात्म रामायणम् अशेषतः यो दद्य रामभक्तेभ्यः तस्य पुण्यफलम् शृणु अधीतेषु च वेदेषु शास्त्रेषु शु, व्याकृतेषु च यत्फलम् दुर्लभम् लोके तत्फलम् तस्य संभवेत, एकादशी अध्यात्म, दिनेध्यात्म रामायणमुपोषितः यो रामभक्तः तदपि व्याकरोति नरोत्तम तस्य पुण्यफलम् वक्ष्ये शृणु वैष्णव सप्तम प्रत्यक्षरम् तु गायत्री पुरश्चर्य फलम् भवेत् उपवासव्रतम् कृत्वा श्रीराम नवमी दिने रात्रौ जागरितोऽध्यात्मे रामायणम् अनन्यधि यः यपठे शृणुयाद्वापि तस्य पुण्यम् वदाम्यहम् कुरुक्षेत्रा दीन पुण्यतीर्थेष्वनेकश आत्मतुल्यम् धनम् सूर्य ग्रहणे सर्वतोमुखे पित्रेभ्यो व्यासतुल्येभ्यो दत्त्वा यत्फलम् वैश्नुते तत्फलम् सम्भवेत्तस्य सत्यं सत्यं न संशयः योगायते मुदाध्यात्म रामायणमहर्निशम् आज्ञां तस्य प्रतीक्षन्ते देवा इन्द्र पुरोगमः पठन्तहमध्यात्म रामायणम् मनोवृतः यत् करोति तत् कर्म तथा च कोटिगुणम् भवेत् तत्र श्रीरामहृदयम् यपठे पठेत् सुसमाहितः स ब्रह्मघ्नोऽपि पूतात्मा त्रिभिरेव दिनैर्भवेत् श्रीरामहृदयम् यस्तु हनुमान् प्रतिमान्तिके श्रीपठेत् प्रत्यहं मौनी स्व सर्वेप्सितभाग् भवेत् पठन् श्रीरामहृदयम् तुलसी अश्वत्थयोर्यधि प्रत्यक्षरं प्रकुर्वीत् ब्रह्महत्या निवर्तनम् कृष्णं जानाति शङ्करः तदर्धं गिर्या वेद्म्यहं मुने तत्र किञ्चित् प्रवक्ष्यामि कृत्नं वक्तुं न शक्यते यत् ज्ञात्वा तत्क्षणात् लोके चित्तशुद्धिम् अवाप्नुयात् श्रीरामगीता यत् पापं न नाशति नार तन्न लोके क्वापि कदाचन तन्न पश्यामहं लोके सर्वदा रामेण उपनिषत् सिन्धुम् उन्मथ्योत्पादिता मुदा लक्ष्मणायार्पिताम् गीता सुधाम् पीत्वा मरो भवेत् जमदग्ने सुतः प्रयत्नतः श्रुत्वा नारायण कलामगात् ब्रह्म इत्यादिपानां निष्कृतिं यदि वाञ्छति रामगीताम् आसमात्रम् पठित्वा मुच्यते नरः दृक्प्रति गृह दुर्भोज्य दुरालापादिसम्भवम् पापं यत्तत्कीर्तनेन रामगीता विनाशीत् चाले ग्रामशिलाघृ च तुलस्यश्वत्थ सन्निधौ यतीनाम् पुरुष सर्व रामगीताम् पठेतु यः स तत्फलम् अवाप्नोति यद्वाचोऽपि न गोचरम् रामगीताम् पठन् भक्त्या यः भोजये द्विजान् तस्य ते पितरः सर्वे यान्ति विष्णो परम् बलम् एकादश्याम् निराहारो नियतो द्वादशी दिने स्थित्वागत्यर्मूले रामगीताम् पठेतु यः स एव राघव साका सर्वदेवैश्च पूज्यते विनाधानं विना ध्यानम् विना, विना तीर्थावगहनम् रामगीताम् न रोद्धित्य तदनन्त फलं लभेत् न किमिहोक्तेन शृणुनारद तत्त्वतः श्रुति स्मृति पुराणेति असगमिता निश्च अर्हन्ति नापमध्यात्म रामायणकलामपि अध्यात्म रामचरितस्य मुनीश्वराय माहात्म्यमेतदुदितं कमलासनेन यः श्रद्धया पठति वा शृणुया प्राप्नोति विष्णुपदवीं सुरपूज्यमान इति श्रीब्रह्माण्डपुराणे उत्तरखण्डे अध्यात्मरामायणमास्यम् सम्पूर्णम् श्रीसीता रामचन्द्रापणमस्तु